नारायणीयं दशकं तर्टि सेवन् मीटर् शार्दूलविक्रीडितं सान्द्रानन्दतनोहरे ननुपुरा दैवासुरे सङ्गरे त्वत्कृता अपि कर्मशेषवशतो ये तेन यादागतिं तेषां भूदलजन्मनां दिदिभुवाम् भारेण दुरार्दिदा भूमिः प्राप विरिञ्जमाश्रितपदं देवैः पुरै वा गतैः हाहा भारमधितां पाधो निधौ पादुकामेदां पालय हन्त विवशदां सम्पृच्छ देवानि इत्यादि इदिप्रचुर प्रलाप विवश्यामालोक्य धादाह देवादना वीक्ष्य पिधो दध्यौदे चाबुजूरमूनयिशुरा सत्यम धरिया वचो नन्वशाता रक्षण विधौ दक्षो हि लक्ष्मीपदिः सर्वे सर्वपुरःसरा वयमिदो गत्वा पयो वारिधिं नत्वा दंस्तुमहे जवादि ययुः साकं तवाकेतनम् ते मुग्धानिलशालिदुग्धजलधे स्थिरं गदा सङ्गदा यावत्त्वत्पदचिन्तनैकमनस्सस्तावत् स पाधो जभूः त्वद्वाजं हृदये निशम्य सकलानानन्द यन्नो जीवानाख्यातः परमात्मना वाक्यं तदा पर्ण्यताम् जाने दीन दशामहम् दिविशदां भूमेश्च भीमैर्नृपैस्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मनां देवावृष्णिकुले भवन्धुकलया देवाङ्गनाश्चावनौ मत्स्येवार्धमिदि त्वदीयवचनम् पाधो जगूरूजिवान् श्रुत्वा कर्णरसायनम् तव वचः सर्वेषु निर्वापि दस्वान् देष्वी तृप्तात्मसु विख्यादे मधुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यान्देवकनन्दनामुद्वह्वद्राजास शूरात्मजः उद्वाहावसिदौ तदीय सहजः कं शोधसम्मानय नेतौ सुदतया गतः पथिरथेव्योमोधया त्वद्गिरा अस्यास्त्वामदिदुष्टमष्टमसु दोहन्देदि हन्तेरिदः सन्द्रा सात्सु हन्तु मन्दिकगदां तन्वीं कृपाणीमधाद गृह्णानश्चिकुरेषु तां फलमधिशौरेश्चिरं सान्द्वनायिर्नो मुञ्जन् गिराप्रीदोथ यादो गृहान् आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नः सौ दुष्टानामपि देवपुष्टकरुणा दृष्टा हि धीरेकदा तावत्त्वन्मनसैव नारदमुनिः प्रोचेत्स भोजेश्वरं यूयं नन्वसुरासुराश्च यदवो जानासि किं न प्रभो मायावीसहरिर्भवद्वथ कृते भावी सुरप्रार्थनादित्याकर्ण्य यदू नदूधुनदः सौ शौरेश्च सूनू प्राप्ते सप्तमगर्भधामहिपतौ त्वत्प्रेरणान्मायया निदेमाधवरोहिणीं त्वमपि भोः सच्चित्सुकैकात्मकः देवज्ञा जढरं विवेशिध विभो संस्तूयमानः सुरैः स त्वं कृष्णविधूय भक्तिम् परां देहि मे सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द